अथत्रयो त्रयोविंशः सर्गः ततः समुपजिघ्नन्ति कपिराजस्य तन्मुखम् पतिम् लोकः तारा शेषेत्वं तारामृतम् वचनमब्रवीत् शेषे त्वम् विषमे दुःखमकृत्वा मम उपलोपचिते वीरसुदुःखे वसुधातले मत्तः प्रियतरा नूनम् शेषे हि ताम् परिष्वज्यमाम् च न प्रतिभाषसे प्राप्तो विधिरेष भवत्यहो सुग्रीव वीरसाहसिकप्रिया वृक्षवानरमुख्यास्त्वाम् बलिनम् पर्युपासते तेषाम् विलपितम् कृच्छ मङ्गदस्य च इदम् तद्वीरशयनं तत्र शेषे हतो युधि शायिता निहता यत्र त्वयैव रिपमः पुरा विशुद्धसत्त्वाभिजनप्रिय युद्धममम प्रिया मामनाथाम् विहायैकाम् गतस्त्वमसि मानदा शूरायण प्रदातव्या कन्या खलु विपश्चिता पश्य सद्यो माम् विधवाम् अवभग्नश्च मे मानो भग्ना मेष शाश्वती अगाधे च निमग्नास्मि विपुले शोकसागरे अश्मसारमयम् नूनमिदम् मे हृदयम् दृढम् भर्तारम् निहतम् दृष्ट्वा यन्नाद्यश तथा कृतम् सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः प्रहारे च पराक्रान्तः पञ्चत्वमागतः पतिहीना तु यानारी कामं भवतु पुत्रिणी धनधान्यसमृद्धापि विधवेत्युच्यते जनैः स्वगात्रप्रभवे वीरशेषे रुधिरमण्डले कृमिरागपरिस्तोमे स्वकीये शयने यथा रेणुशोणितसम्बीतम् गात्रम् तव समन्ततः परिरब्धुम् न शक्नोमि प्लवगर्षभा कृतकृत्योऽद्यसुग्रीवो वैरेऽस्मिन्नतिदारुणे यस्य रामविमुक्तेन हृतमेकेषु नाभयम् शरेण हृदि लग्नेन गात्रसंस्पर्शने तव वार्यामित्वान्निरीक्षन्ती त्वयि पञ्चत्वमागते उद्बबर्ह शरम् नीलस्तस्य गात्रगतं तदा गिरिगह्वरसंलीनम् दीप्तमाशीविषम् यथा तस्य निष्कृष्यमाणस्य बाणस्यापि बभौद्युतिः अस्तमस्तकसमृद्धरश्मेर्दिनकरादिव पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ताम्रगैरिकसम्पृक्ता धारा धराधरात् अवकीर्णम् विमार्जन्ती भर्तारम्रणरेणुना अस्त्रैर्नयनजैः शूरम् सिषे ऋथिरोक्षितसर्वाङ्गम् दृष्ट्वा विनिहतं पतिं। उवाच तारापिङ्गाक्षम् पुत्रमङ्गदमङ्गना अवस्थाम् पश्चिमाम् पश्य पितुः पुत्रसुदारुणा वैरस्य गतोऽन्तः पापकर्मणा बालसूर्योज्ज्वलतनम् प्रयातम् यमसादनम् अभिवादय राजानम् पुत्रमानदम् एवमुक्तः समुत्थाय जग्राहचरणौ पितुः भुजाभ्याम् पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् अभिवादयमानम् त्वामङ्गदम् त्वम् यथा पुरा दीर्घायुर्भव पुत्रेति नाभिभाषसे अहम् पुत्रसहायामुपासे गतचेतनम् सिंहेन पातितम् वृषम् इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसा तस्मिन्नवभृथे स्नातः कथम् पत्न्या मया विना या दत्तादेव राजेन तव तुष्टेन संयुगे शातकौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि नेह गता सुमपि मानदा सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा न मे वज पथ्यदयातस्म शक्ता हि तव हता स पुत्रास्ते न संयुगे सहया श्रीर्बाति मे इशे श्रीमद् राये वाक्ये किंश सर्ग